आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मा विण्मूत्रामेध्य मध्ये क्वथयति नितराम जाठरो जातवेदाः यद्यद्वै तत्र व्यथयति नितराम शक्यते केन वक्तुम् क्षन्तव्यो मे पराधः शिव शिव शिव भो श्रीमहादेव शम्भो बाल्ये दुःखातिरेकाम् अललुलितवपुः स्तन्यपाने पिपासा नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि क्षन्तव्यो मे पराध शिव शिव शिव भो प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मसन्धौ दष्टो नष्टो विवेकः सुतधनयुवति स्वादसौख्ये निषण्णः शैवी चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढम् क्षन्तव्यो मे पराधः शिव शिव वार्धक्ये चेन्द्रियाणां विगतगतिमतिः चाधिदैवादितापैः पापैरोगैर्वियोगैः त्वनवसित वपुः प्रौढिहीनं च दीनम् मिथ्यामोहाभिलाषैः भ्रमति मम मनो धूर्जटेर्ध्यानशून्यम् क्षन्तव्यो नो शक्यं स्मार्तकर्मं प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुसारे ज्ञातो धर्मो विचारैः श्रवणमननयोः किन्निदिध्यासितव्यम् क्षन्तव्यो मे पराध शिव शिव शिव भो श्रीमहादेव शम्भो स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गांगतोयं पूजार्थं वा कदाचित् बहुतरगहनात् खण्डबिल्विदलानि नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं क्षन्तव्यो मे पराध शिव शिव शिव भो स्नापितं नैव लिङ्गं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः धूपैः कर्पूरदीपैः विविधरसयुतैः नैव भक्ष्योपहारैः क्षन्तव्यो मे पराध ध्यात्वा चित्ते शिवाख्यम् प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसङ्ख्यैः हुतव हवदने नार्पितं बीजमन्त्रैः नो तप्तं गङ्गतीरे व्रतजपनियमै रुद्रजाप्यैर्न वेदैः क्षन्तव्यो श्रीमहादेव शम्भो स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुण्डले सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपे पराखे लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि क्षन्तव्यो मे पराधः शिव शिव शिव भो श्रीमहादेव शम्भो नग्नो निस्सङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहन्धकारो नासाग्रे न्यस्तदृष्टिः विदित भव उन्मन्यावस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि क्षन्तव्यो मे पराध शिव शिव शिव भो श्रीमहादेव शम्भो नेत्रोत्थवैश्वानरे दन्तित्वकृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरुचित्तवृत्तिमखिलामन्यैस्तु किं कर्मभिः किं वानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किम् किम्बा पुत्र किंवा पुत्रकलिपशुरी देहेन गेहेन किाव तत्भंगुर सपतिज्य मनो दूरता स्वात्मा स्वात्मार्थं तो भज भज श्री पार्वती वल्लभं। आयुर्नश्यति पश्यतां प्रतिदिनं यातिक्षयं यौवनं प्रत्यायान्ति गताः पुनर्नदिवसाः कालो जगद्भक्षकः लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितम् तस्मान् मां शरणागतं शरणद त्वं रक्ष रक्षाधूनां करचरणकृतं वाक् कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधं विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाधे श्री महादेव शंभो